अथाष्टचत्वारिंशः सर्गः एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुषम् वचः ललाटे भ्रुपुटिम् कृत्वा रावणः प्रत्युवाचः भ्राता वैश्रवणस्याहम् सापत्नो पत्नो वरवर्णिनी रावणो नाम भद्रंते ते दशग्रीवः यस्य देवाः स गन्धर्वाः पिशाचपतगोरगाः विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः येन वै भ्राता वै मात्रः कारणान्तरे द्वन्द्वमासादितः क्रोधा द्रणे विक्रम्य निर्जितः मद्भयार्थः परित्यज्य स्वमधिष्ठानमृद्धिमत् कैलासम् पर्वत श्रेष्ठमध्यास्ते नरवाहनः यस्य तत् पुष्पकम् नाम विमानम् कामकम् शुभम् वीर्यादावर्जितम् भद्रे येन यामि विहायसम् मम सञ्जातरोषस्य मुखम् दृष्ट्वैव मैथिली सुराः शक्रपुरोगमाः यत्र तिष्ठाम्यहम् तत्र मारुतो वातिशङ्कितः तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि निष्कम्पपत्रास्तरवो नद्यश्चस्तिमितोदकाः भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च मम पारे समुद्रस्य लङ्का नाम शुभा सम्पूर्णाराक्षसैर्घोरैर्यथेर्न्रस्यामरावती प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा हस्त्यश्वरथ संवादा तूर्यनादविनादिता सर्वकामफलैर्वृक्षैः सङ्कुलोद्यानभूषिता तत्र त्वम् वसहेसीते राजपुत्रिमया सह न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनी भुञ्जानामानुषान् भोगान् विज्ञांश्च वरवर्णिनी न स्मरिष्यसि रामस्य मानुषस्य गतायुषः स्थापयित्वा प्रियम् पुत्रम् राज्ये दशरथो नृपः मन्दवीर्यस्ततो ज्येष्ठस्वतः प्रस्थापितो वनम् तेन किम् भ्रष्टराज्येन रामेण गतचेजसा करिष्यसि विशालाक्षितापसेन तपस्विना रक्षराक्षस भर्तारम् कामय स्वयमागतम् न मन्मथ शराविष्टम् चरणेणाभिहत्येव पुरुव समुर्वशी अङ्गुल्या न समो रामो मम युद्धे समानुषः तव भाग्येन सम्प्राप्तम् भजस्वरवर्णिनी एवमुक्ता तु वै देही क्रुद्धा भ्रातरम् व्यपदिश्य त्वमशुभम् कर्तुमिच्छसि अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः येषाम् त्वम् कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः अपहृत्य शचीम् भार्याम् शक्यमिन्द्रस्य जीवितुम् न हि रामस्य भार्याम् मानीयस्वस्ति मान् भवेत् जीवेच्छिरम् वज्रधरस्य पश्चाच्छचीम् प्रदृश्या प्रतिरूपरूपा न मादृशीम् राक्षस दर्शयित्वा पीतामृतस्यापि तवास्ति मोक्षः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः